श्रीहरये नमः अथ नवमोऽध्यायः मैत्रेय उवाच त एवमुत्सन्नभयावुरुक्रमे कृतावनामा प्रययोस्त्रिविष्टपं सहस्रशीर्षापि ततो गरुद्मथा मधोर्वनं प्रत्यधितृक्षया गतः स वैदियालोकविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभं तिरोहितं सहसैवोपलक्ष्य बहि ततवस्तं तदवस्थम् दधर्श तद्दर्शनेनागत सात्त्व सक्षितो अहन्त धाङ्गम् विनमय्य दण्ढवत् दृव्याम् प्रपश्यन् प्रभिपन्निवार्भगस् सुम्भन्निवास्येन भुजैरि ज्ञात्वास्य सर्वस्य सहृत्यवस्थितः कृताञ्जलिं ब्रह्ममयेन गम्भुना पस्पर्शभालम् कृपया कपोले सवै तथैव प्रतिपादिताम् दैवीं परिज्ञातपरात्मनिर्णयः तं भक्तिभावोऽभ्यघृणात सत्वरं परिश्रुतोश्रवसं ध्रुवक्षितिः ध्रुव योऽन्तः प्रविश्च मम वाचमिमां प्रसुप्ताम् सञ्जीवयत्य किल शक्तिधरस्वधाम्ना अन्यांश्च नमो भगवते पुरुषाय तुभ्यम् एकस्त्वमेव भगवन्निदमात्मसत्यात् मायाक्ययोरुगुणयामहधात्यशेषम् सृष्ट्वानुविश्य पुरुषस्तद सद्गुणेषु नानेव धारुषु विभावे त्वद्धत्तया वयुनयेतम् अचष्ट विश्वम्प्रभुक्त इव नादभवत्प्रपन्नः तस्यापवर्ग्य शरणं तव कथमार्थबन्धो नूनं ये त्वां भवाव्य विमोक्षणमन्य हेतोः अर्चन्ति कल्पकतरुं गुणपोपभोग्यम् इच्छन्ति यस्पर्शजं निरयेऽपि नॄणां या किं त्वन्दकासि लुलितात् विमानात। भक्तिं मुहुप्रवहतां त्वयि मे प्रसङ्गो भूयातमहतामलासया ये नाज्ञे भवत्कुण कथामृतवानमत्तः ते न स्मरन्ति अतितरां प्रियमीशमर्थ्यं ये चान्वतस्तुत गृहवित्तधाराः ये त्वज्जना भवती सौख्यन्त्यलुब्धहृदयेषु कृतप्रसङ्गाः तिर्यङ्गद्विजसरीश्रुपदेव दैत्यमद्यादिभिपरिचितं सदसद्विशेषं रूपं स्तविष्टं मजते महधात्यनेकं नाथः परं परमवेद्मिन यत्र जडरेण गृह्णन् सेथे पुमां यन्नाभिसिन्धुरुकञ्चनलोकपद्म का गर्भेत्युमान् भगवते प्रणतोऽस्मि तस्मै त्वं नित्यमुक्तपरिशुद्धविभुद्ध आत्मा कूटस्थ आदिपुरुषो भगवान् त्रधीशः यद्बुद्ध्यवस्थितिम् अखण्डितया स्वदृष्ट्या द्रष्टास्तिदावधिमघो व्यतिरिक्त आस्ते यस्मिन् बृहद् दगधयो ह्यनिशम्पदन्ति विद्याधयो विविधशक्त्यानुभूर्व्यात् तद्ब्रह्मविश्वभवमेकमनन्तमाध्यं आनन्दमात्रम् अविकारमहं प्रभद्ये सत्याशिषो हि भगवन्तव पादपद्मम् आसीस्तथानुभजतः पुरुषार्थमूर्तेः अप्येवमर्यभगवान् परिपाति दीनान् वात्स्रेव वत्सकम् अनुग्रहकातरोऽस्मान् मैत्रेय उवाच अथा विष्णुत एवं वै सत्सङ्कल्पे नधीमता प्रत्यानुरक्तो भगवान् प्रदिनन्द्येतम् अब्रवीत् श्रीभगवानुवाचा वेताहं ते व्यवसितं हृदि राजन्यपालक तत् पश्यामि भद्रं ते धुरापमपि सुव्रता नाङ्ग्यैरधिष्ठितं भद्र यत्राजिष्णुध्रुवक्षिते यत्र ग्रहर्षधाराणां ज्योतिषां चक्रमाहितं मेध्यां गोचक्रवत्स्तास्नु परस्ताकल्पवासिनां धर्मोऽग्निकश्यपशुक्रो चरन्ती दक्षिणीकृत्य भ्रमन्तो यत्सधाराकाः प्रस्थिते तु वनं पित्रा धद्वागां धर्मसंश्रयः षट्त्रिंशत्वर्षसाहस्रं रक्षिता व्याहतेन्द्रियः त्वत्भ्राधरिमुत्तमे नष्टे मृगयायां तु तन्मनाः अन्वेषन्ति वनं माता दावाग्निं सा प्रवेश्यते इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः भुक्त्वा शेकासिषक्सत्या अन्ते मां संस्मरिष्यते तथो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् उपरिष्ठादृशिभ्यस्थं मैत्रेयौ वाच इत्यच्युतः स भगवान् अदिदिश्यात्मनः पदं बालस्य पश्यतो धाम स्वमघाद्गरुड्वजः सोऽपि सङ्कल्भजं विष्णो पादसेवोपसाधितं प्राप्य सङ्कल्पनिर्वाणं नातिप्रीत्योऽभ्यघात्पुरं विदुरौ वाच सुदुर्लभं यत् परमं पदं हरेर्मायाविनस्तच्छरणार्चनार्जितं लब्ध्वाप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानमहन्यथार्थवीत् मैत्रेय उवाच मातुः स पत्न्या वाक्पाणैः कृतिविद्धस्तुतान् स्मरन् नैच्छन्मुक्तिपथेर्मुक्तिं तस्मात्तापम् उपेयिवान् ध्रुव समाधिना नैकभवेन यत्पदं वितुस्तनन्दाधय ऊर्ध्वरेतसः भगतः पृथङ् अहोभतममानाद्यं मन्दभाग्यस्य पश्यता भवश्चितः पादमूलं गत्वा ये यधन्तवत् मतिर्विदूषिता देवे पतद्बिरसहिष्णुभिः यो तप्ये द्वितीयेऽप्यसते भ्रातृ भ्रातृव्यहृदृजान् मयैतत् प्रार्थितं द्यर्थं चिकित्सेव गतायुषे प्रसाद्य जागदत्मानं तपसा दुष्प्रसाधनं पवश्चिदमया चेकं भवं भाग्यविवर्जितः स्वराज्यं यच्छतो मौढ्यात् मनोमे भिक्षितो भथ ईश्वराक्षीणपुण्येन फलीकारानि वादनः मैत्रेय उवाच नभैमुकुन्दस्य पधारविन्धयो राजोषु शस्तात भवातृषा जनाः वाञ्छन्ति दत्ताश्यं धृतेऽर्थमात्मनो यदृश्चया आकर्ण्य आत्मजम्मायान्तं सम्परेत्य यथागतं राजानश्रद्दते भद्रम् अभद्रस्य कुतो मम श्रद्धाय वाक्यं देवेर्षे हर्षवेगेन दर्शितः हा। वार्ताहर्तुरतिप्रीतो हारं प्रधान्महाधनं सधस्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ब्रह्मणैकुलवृद्धैश्च पर्यस्तोमात्यबन्धुभिः सङ्गधुन्दुपिनादेन ब्रह्मघोषेण वेणुभिः निश्चक्रामपुरार्तूर्णम् आत्मजाभीषणोत्सुकः सुनीतिः शुरुचिः शास्य महिष्यौरुक्मभूषिते आरुह्य शिबिकां सार्धम् उत्तमेन अभि जग्मधुः त्वं दृष्ट्वा उपवनाभ्यासम् आयान्तं तरशारथात् अवरुह्य नृपस्तूर्णम् आसाध्यप्रेम विक्वलः परिरेभे गजं दोर्भ्यां दीर्घोत्कण्ठमनास्व सन् विश्वक्स्नेहाग्रिसंस्पर्श्व हथा शेषागबन्धनम् अधा जिग्रन्मुहुर्मुर्ध्नि सीतैर्नयनभारिभिः स्नापयामासनयम् जाधोद्धाम मनोरथः अभिवन्ध्यपितुः पाधौ असीद्भिच्च अभिमन्त्रितः न नाम सुरुचिस्तं समुत्ताप्यं पाधावनतम् अर्भगं परिष्वज्याः जीवेति बाष्पगद्गतया गिरा यस्य प्रसन्नो भगवान् गुणैर्मैत्याधिभिर्हरिहे तस्मै न मन्ति भूतानि निम्नमाभयिव स्वयम् उत्तमश्च ध्रुवश्चोभौ अन्योन्यं प्रेमविह्वलौ अङ्गशङ्गात् उत्पुलौको अस्रौघं मुहुरुहतुः सनीतिरस्य जननीं प्राणेभ्योऽपि प्रियं सुतम् उपगुह्य जहावाधिं तदङ्कस्पर्शनिर्वृतां पयस्तनाभ्यां शुश्रावय नेत्रजैषुलिलै शिवैः तथा भिक्षयमानाभ्यां वीरवीरशुभो मुकुः तांसशुंशोर्जनाराज्ञीं दिष्ट्या ते पुत्र आर्तिः प्रतिलब्धशिरं नष्टो रक्षितामण्डलम्बुवः अभ्यर्चितस्त्वया नूनं भगवान् प्रणदार्तिहा यथनुद्यायिनो धीरा मृत्युं जिज्ञुषुधुर्जयं लाल्यमानं जनैरेवं ध्रुवं स प्रातरं नृपः आरोप्य करिणीं हृष्ट स्तूयमानो विसत्पुरं तत्र तत्रोपसंलुब्धैर् लसन्मकरतोरणैः सवृन्दैः कदलीस्तम्भैः पूगभूतैश्च तद्वितैः सूतपल्लववासश्रं मुक्तादमविलम्बिभिः उपस्कृतं प्रतिद्वारम् अपां कुम्भैः सदीपैः प्राकारैर्गोपुराघारैः सातकुम्भपरिश्चतैः सर्वतोलङ्कृतं श्रीमद्विमानशिखरद्युभिः मृष्टचत्वररत्याट्टमार्गं चन्तनश्चर्चितं लाजाक्षतै पुष्पफलैः तण्डुलैर्बलिभिर्युतं ध्रुवाय पदि दृष्टाय तत्र तत्र पुरस्त्रियः सिद्धार्धाक्षतधद्यम्भो धूर्वापुष्पफलानि च उभजकृप्रयुञ्ज्ञानां वात्सल्यात् आशिषः सती हे शृण्वंस्तत्वल्गुगीतानि प्राविसद्भवनं पितुः महामणिव्रतामये स तस्मिन् भवनोत्तमे लालितो नितरां पित्रा न्यवसद्दिविदेववत् पयःपेन निभाषय्या दान्तारुक्मपरिच्छदाः आसनानि महार्हाणि यत्र ौक्मा उपस्कराः यत्र स्फटिकघुट्येषु महामारकथेषु च मणिप्रदीपा आभान्ति ललनारत्नसंयुताः उद्यानानि च रम्याणि विचित्रैयमरद्रुमैः कूजद्विकङ्कमिथुनैर्गायन्मत्तमधोव्रतैः वाप्यो वैधूर्यशोपानां पद्मोत्पलकुमोद्वती हंसकारण्ढवैकुलैर्जुष्टाश्चक्राह्वासारसैः उत्थानबाधो राजर्षिः प्रभावं तनयस्य तं अद्भुततमं प्रभेते परम् विष्योटवयसं तं च प्रकृतीनां च सम्मतम् अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् च प्रवयसम् आकलय्य विशां वनं विरक्तप्रातिष्ठत् विमृशन्नात्मनो इते श्रीमद्भागवते महापुराणेन चतुर्थस्कन्ते ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमगराजुके जय